शीर्षयोः पतिता वृक्षा विभिधुर्नैकधातयोः तथैवोत्पलपत्राणि मत्तयोर्द्विपयोस्तथा मुञ्जवज्जर्जरीभूता बहवस्तत्रपादपाः क्षीराणीव व्युतस्तानि रेजुस्तत्र महावने तद्वृक्षयुद्धमभवन्मुहूर्तम् भरतर्षभा राक्षसानाम् च मुख्यस्य भीमस्य युधि तिष्ठतः क्रुद्धो भीमश्च न तंसिला ताडनजडम् पर्यधावतराक्षसः बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् तावन्योन्यम् समाश्लिष्य प्रकर्षन्तौ परस्परम् उभावपि चकासेते प्रवृद्धौ वृषभाविव तयोरासीत्सु तुमुलः सम्प्रहारः सुदारुणः नखतं श्रयुधवतो व्याघ्रयोरिवदृप्तयोः दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः कृष्णानयनदृष्टश्च व्यवर्धतवृगोदरः मातङ्गमिव मातङ्गः प्रभिन्नकरटामुखम् स चाप्येनम् ततो रक्षः प्रतिचग्राहवीर्यवान् तमाक्षिपद्भीमसेनो बलेन बलिनाम् वरः तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा शब्दः समभवद्घोरो वेणुस्फोटसमो युधि अधेनमाक्षिप्य बलाद् गृह्य मध्ये वृकोदरः धूनयामास वेगेन वायुश्चण्ड इव सभीमेन परामृष्टो दुर्बलो बलिनारणे व्यस्पन्दत विनदन्तम् महानादम् भिन्नभेरी स्वनम्बली भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् तं विषीदन्तमाज्ञाया राक्षसम् पाण्डुनन्दनः प्रगृह्यतरसादोर्भ्याम् पशुमारममारयत् आक्रम्य च कटीदेशे जानुना राक्षसाधमम् पीडयामास पाणिभ्याम् तस्य मृकोदरः अध जर्जरसर्वाङ्गम् व्यावृत्तनयनोऽल्बणम् पूतले भ्रामयामास चेदमुवाचः हिडिम्बबकयोः पापा न प्रमार्जनम् करिष्यसि गतश्चापि यमस्य सदनम् प्रति